त्रिसप्ततितमोऽध्यायः दुष्यन्त उवाच सुव्यक्तं राजपुत्रित्वं यथा कल्याणि भाषसे भार्यामे भवशुश्रोणि ब्रूहि किं करवाणि ते सुवर्णमालां वासांसि कुण्डले परिहाटके नानापत्तनजे शुभ्रे मणिरत्ने च शोभने आहरामि तवाद्याहं निष्कादीन्याजिनानि च सर्वे राज्यं तवाद्यास्तु भार्या भवशोभने गान्धर्वेण च मां भीरु विवाहेन हि सुन्दरि विवाहानां हिरम्भोरु गान्धर्वश्रेष्ठ उच्यते शकुन्तल उवाच फलाहारो गतो राजन् पिता मे इताश्रमात् मुहूर्तं सम्प्रतीक्षस्व मां तुभ्यं प्रदास्यति पिताहि मे प्रभुर्नित्यं दैवतं परमं मतं यस्य वा पिता समे भविष्यति पिता रक्षति कौमारे भर्ता रक्षति यौवने पुत्रस्तु स्थविरे भावे न स्त्री स्वातन्त्र्यमर्हति अमन्यमाना राजेन्द्र पितरं मे तपस्विनम् अधर्मेण हि धर्मिष्ठ कथं वरमुपास्महे दुष्यन्त उवाच मां मैवं वदशुश्रोणि तपोराशिं दयात्मकम् शकुन्तलौ उवाच मन्युप्रहरणाविप्रा अविप्राशस्त्रपाणयः अग्निर्दहतितेजोभिः सूर्योदहतिरश्मिभिः राजादहतिदण्डेन ब्राह्मणो मन्युना दहेत् क्रोधितो मन्युना हन्ति वज्रपाणिर्वासुरान् दुष्यन्त उवाच इच्छामि त्वां वरारोहे भजमानामनिन्दिते त्वदर्थं मां स्थितम् विद्धि त्वद्गतं हिमनो मम आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः आत्मनो मित्रमात्मैव तथात्मा चात्मनः पिता आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः अष्टावेव समासेन विवाहाधर्मतः स्मृताः ब्राह्मोदैवस्तथैवार्षः प्राजापत्यस्तथा सुरः गान्धर्वो राक्षसश्चैव पैशाचष्टाष्टमः स्मृतः तेषां धर्म्यान् यथापूर्वं मनुस्वायम्भुवोऽब्रवीत् प्रशस्तांश्चतुरः पूर्वान् ब्राह्मणस्योपधारय षडानुपूर्व्यां क्षत्रस्य विद्धिधर्म्याननिन्दिते राज्ञान्तुराक्षसोऽप्युक्तो विक्षूद्रेष्वासुरस्मृतः पञ्चानान्तु त्रयो धर्म्या अधर्म्यौ द्वौ स्मृताविह पैशाचासुरश्चैव न कर्तव्यौ कदाचन अनेन विधिना कार्यो धर्मस्यैषा गतिस्मृता गान्धर्वराक्षसौ क्षत्रे धर्म्यौतौ माविशङ्किताः पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्रसंशयः सा त्वं मम सकामस्य सकामावरवर्णिनि गान्धर्वेण विवाहेन भार्या भवितुमर्हसि शकुन्तलोवाच यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्ममा प्रदाने पौरवश्रेष्ठ शृणु समयं प्रभु। सत्यं मे प्रतिजानीहि यथावक्ष्याम्यहं रह मयि जायेतयः पुत्रः सभवे त्वदनन्तरः युवराजो महाराज सत्यमेतद्ब्रवीमिते यद्येतदेवं दुष्यन्त अस्तु मे वैशम्पायनोवाच एवमस्वितितां राजा प्रत्युवाचा विचारयन् अपि च त्वां हिनेष्यामि नगरं स्वं शुचिस्मिते यथा त्वमर्हाशुश्रोणि सत्यमेतद्ब्रवीमिते एवमुख्वासराजर्षिस्तामनन्दितगामिनीं जग्राहविधिवत्पाणाववास च तया सह विश्वास्य चैनां सप्रायाद् अब्रवीञ्च पुनः पुनः प्रेषयिष्येतवार्थाय वाहिनीं चतुरङ्गिणीं तया त्वानायिष्यामि निवासं स्वं एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनी सम्परिष्वज्यबाहुभ्याम् स्मितपूर्वमुदैक्षत प्रदक्षिणीकृताम् राजा सम्परिषस्वजे शकुन्तला ह्यश्रुमुखी ताम् देवीम् पुनरुत्थाप्य मा पुनः शपेयं सुकृतेनैव प्रापयिष्येऽनृपात्मजेपायनो वा इति तस्याः प्रतिश्रुत्य सनुपो जनमेजय मनसा चिन्तयन् प्रायात् काश्यपम् प्रतिपार्थिवः भगवान्स्तपसा युक्तः श्रुत्वा किं करिष्यति एवं स चिन्तयन्नेव प्रविवेश स्वकम् पुरम् मुहूर्तया शकुन्तला च पितरम् ह्रियानापजगामतम् शङ्कितैव च विप्रशिम् उपचक्रामसा शनैः चाप्यकल्पयत् शकुन्तला च सव्रीडा तम् ऋषिम् नाभ्यभाषत तस्मात् स्वधर्मात् स्खलिता भीता सा अभवद्दोषदर्शित्वात् ब्रह्मचारिण्ययन्त्रिता सतदा व्रीडितां दृष्ट्वा ऋषिस्तां प्रत्यभाषत कण्वौ वाचदीर्घायुः पुरेव भविता न च भोरु मात्रासं चपकल्पय वैशम्पायनौ वा च ततकृच्छ्रादतिशुभा सव्रीडा श्रीमती तदा सगद्गदमुवाचेदं सा काश्यपं साशुस्मिता राजा जगामेह, दुष्यन्त इलिलात्मजः मया पतिर्वृतो दैवयोगादिहागतः तस्य तातप्रसीदस्व भर्तामे मे सुमहायशाः अधः सर्वम् तु यत् वृत्तम् क्षत्रियकुले प्रसादम् विज्ञायाथ च ताम् कण्वो दिव्यज्ञानो महातपाः उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा त्वयाद्यभद्रेरहसि वामनादृत्ययः कृतः पुंसा सह समायोगो न स धर्मोपघातकः क्षत्रियस्य हि गान्धर्वो विवाहश्रेष्ठ उच्यते सकामायाः सकामेना निर्मन्त्रो रहसि स्मृतः धर्मात्मा च महात्मा च दुष्यन्तः पुरुषोत्तमः अभ्यगच्छः पतिम् शकुन्तले महात्मा जनिता लोके पुत्रस्तव महाबलः यैमां सागरापाङ्गीम् कृत्स्नाम् भोक्ष्यतिमेदिनी परञ्चाभिप्रया तस्य चक्रं तस्य महात्मनः भविष्यत्यप्रतिहतम् सततं चक्रवर्तिनः ततः प्रक्षाल्यपादौ सा विश्रान्तं भारं सन्निधाय फलानि च शकुन्तलौ वा राजा दुष्यन्तः पुरुषोत्तमः तस्मै स सचिवायत्वं प्रसादं कर्तुमर्हसि कण्वौ वाच प्रसन्न एव त्वत्कृते वरवर्णिनि ऋतवो बहवस्त्येवै गताव्यर्थाशुचिस्मिते सार्धकं साम्प्रतं ह्योतन् न च पापोऽस्तितेन गृहाण च मत्तस्त्वं शुभे यदभीप्सितम् वैशम्पायनौ वा ततो धर्मिष्ठताम वव्रे राज्याञ्चास्खलनम् तथा शकुन्तलापौरवाणाम् दुष्यन्तहितकां हितकाम्यया एवमस्त्वितिताम् प्राह कण्वो धर्मभृताम्बरः पस्पर्शचापि पाणिभ्याम् सुतां श्रीमिवरूपिणीम् कण्वौ वाचाद्यप्रभृतिदेवी त्वम् दुष्यन्तस्य महात्मनः पतिव्रतानाम् या वृत्तिस्ताम् वृत्ति इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि शकुन्तलोपाख्याने त्रिसप्ततितमोऽध्यायः